एवमुक्तः सः स्त्रीभिरीक्षितो मधुसूदनः ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात् चकाराथ यथोद्देशमीश्वरो मणिपर्वतं ततो धनानि रत्नानि सभायां मधुसूदनः निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ततः सान्दीपनिं पूर्वमुपस्पृष्ट्वा महायशाः ववन्दे पृथुतां राक्षः प्रीयमाणो महाभुजः तथाश्रुपरिपूर्णाक्षमानन्दगतचेतसं ववन्दे सह पितरं वासवानुजः सर्वे म सश्लिष्यन्धकृष्णय